श्रीमद्भागवत् महापुराणम् एकादशि स्कन्धम् अथैकत्रिंशोऽध्यायः श्रीभगवान् का स्वधां गमन् श्रीशोकुवाच अथ तत्रागमद्ब्रह्मा भवान्या च समं भवः महेन्द्रप्रमुखा चारणायक्ष रक्षांसि किन्नराप्सरसो द्विजाः द्रष्टुकामा भगवतो निर्याणं परमोऽशुकाः गायन्तश्च गृह्णन्तश्च सौरे कर्माणि जन्म च वृषोपष्पवर्षाणि विमानावलिभिर्नभ कुर्वन्तः शङ्कुलं राजन् भक्त्या परमया भगवान् पितामहं व्यक्ष विभूतिरात्मनो विभू संयोज्यात्मनि चात्मानं पद्यनेत्रेण्यमीलयत् लोकाभिरामां स्वतनुं धरणाध्यानमङ्गलं योगधारण्याग्नेयाद्दग्धामा विसस्वकं दिविदुन्दपयोने रूपेतु सुमनसश्च तखात् सत्यं धर्मो धृतिर्भूमेः कीर्तिश्रीशानुतं ययुः देवादयो ब्रह्ममुख्या न सधामने सधाम अभिज्ञातगतिं कृष्णं दधिशु स्याति विस्मिताः सोदामन्या यथा काशीयान्त्याश्रित्वा भ्रमण्डनं गतिर् लक्षति मृत्यैस्तथा कृष्णस्य दैवतैः ब्रह्म रुद्रादयस्ते तु दृष्ट्वा योगगतिं हरे विस्मितास्तां प्रशंसन्त शंशं लोकं ययुस्तदा राजन्तरस्य तनुभे जननाप्ययेहा मायाविडम्बनं वेहि यथा नटस्य सृष्ट्वात्मनेदमनुवेस्य बृहेत्य संहृत्य परतस आस्ति भरतेन यो गुरुस्तुतं यमलोकनीतं त्वां चान्यच्छरणन्दपरमातदग्धं जिज्ञेन्तकान्तकं कमपि कम समसावनिश किं शावनेश्वरणयन्वृगयुं तथा देहं चित्संभवाप्यये स्वनन्यहेतुर्यदशेषशक्तिधेन्नैच्छत् प्रणयितुं वपुरत्र शोषितं शेषितं मरते किं स्वस्थगतिं प्रदर्शयन् य एतां कृष्णस्य पदवीं परां प्रयत कृतयेद्भक्त्या तामेवाप्नोतनुत्तमाम् दारुको द्वारकामेत्य वसुदेवो ग्रशेन योः पतित्वा चारणावस्थैन सिञ्चन् कृष्णविद्युतः कथयामास निधनं विष्णुनां कृष्णसोऽपं दच्छुत्वो जग्नहृदया जनाः शोकविमूर्छिताः तत्र स्मचरिता जग्मो कृष्णविश्लेषविफलाः जसवसेरते यत्र ज्ञातियो घ्नन्त आननम् देवकी रोहिणी चैव वसुदेवस्तथा सुतौ कृष्णरामावपश्यन्त सौकार्ता विजुः स्मृतिं प्राणाश्च विजुहुस्तत्र भगवद्विरहातुराः तुगुह्य पतिंस्तात् चितामारुरुः श्रियः रामपत्न्यस्त तद्देहम् उपगुह्याग्निमाविशन् वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीनहरे स्नुषाः कृष्णपत्न्यो विषन्नग्निं रुक्मिणि रुक्मिणीं रुक्मिणियाद्या तदात्मिकाः अर्जुनप्रेयसप्रक्षो कृष्णस्य बरहातुराः आत्मानं शान्तयामास कृष्णगीते स दोक्तिवे बन्धूनां नष्टगोत्राणाम् अर्जुनसां परायिकं हतानां कारयामास यथावदनपूर्वशः द्वारकां हरिणा त्यक्तां समुद्रोऽप्रावियक्षणात् वर्जयित्वा महाराज श्रीमद्भगवदालयम् नित्यम् सन्निहितस्तत्र भगवान्मधुसूदनः स्मृत्या शेषाशुभरम् सर्वमङ्गलमङ्गलम् श्रीबालवृद्धानादाय हतशेषान् धनञ्जयः इन्द्रप्रस्थम् समावेश्य वज्रम् तत्राभ्यसेचयत् श्रत्वा स्वेध्वनम् वधम् राजन् अर्जुनात् ते पितामहः त्वां वंशधरं कृत्वा जग्मू सर्वे महापथम् य एतद्देवदेवस्य विष्णो कर्माणि जन्म च कीर्तये श्रद्धया मर्त सर्वपापैः प्रमुच्यते इत्थं हरेर्भगवतो रुचिरावतार वीर्याणि बालचरितानि च सन्तमालि अन्यत्र चेह च सुतानि गृहन्मनुष्यो भक्तिं परां परमहंसगतौ लभेत इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसहस्रायां पारमहंस्यां सहितायाम् एकादशस्कन्धे एकत्रिंशोऽध्यायः इत्येकादशस्कन्धः समाप्तः हरिः ओं तस्य हरिः ओं तस्यत्, हर्यों तस्यत् Hari Om Tasad